श्रीमद्भागवत्महापुराणम् एकादशस्कन्ध षष्ठोऽध्यायः श्रीबादरायणीर्वाच इत्यभ्यष्टूय विबुधैष्ये ससद्धृतिर्हरिम् अभ्यभासत गोविन्दं प्रणम्यां बरमाश्रितः ब्रह्मोवाच भूमिर्भारावताराय पुरा विज्ञापित प्रभो त्वमस्माभिरशेषात्म तथैवोपपादितम् धर्मश्च स्थापितं सस्य सत्यसन्धेषु वै त्वया कीर्तिश्च सर्वलोक विक्षिप्ता सर्वलोकमलापः दूर्वंसे भ्रमद्रूप भ्रमद्रूपमनुत्तमम् कर्माण्युद्धामवृत्तानि हिताय जगतो कृथा यानि ते चरितानिश मनुष्यासाधवः कलौ शृण्वन्तकीर्तयन्तश्च तरिश्चन्त्यञ्जसातमः यदुवंसेवतेर्णस्य भवत पुरुषोत्तमं शरच्छतं व्यतीताय पञ्चविंशाधिकं प्रभो नाधुनाते नाधुना तेखिलधाराखिलाधार नाधुना तेऽखिलाधार देवकार्यावशेषितं कुलं च विप्रशापेन नष्टप्रायामभूदितं ततः स्वधामपरमं विश्वस्य यदि मन्यसे सलोलो सलोकान् लोकपालान्न पाहि वैकुण्ठकिङ्करान् श्रीभगवानुवाच अवधारितमे तन्मे यदार्थ विबुधेश्वर कृतं कार्यमखिलं भूमेर्भारोऽवतारितः तदिदं यादवकुलं वीर्यशौर्य सुयोद्धतं लोकं जिघृक्षतरुद्धं मे विलयेव महार्णवः यद्यसंहृत्य तृप्तानां यदूनां विपुलं कुलम् गन्तास्मलेन लोकोऽयम् उद्वेलेन विनङ्क्ष्यति इदानीं नास आरब्धकुलस्य द्विजशापतः यासामि भवनं ब्रह्मण्येतदन्ते सवानघेषु उवाच इत्युक्तो लोकनाथेन स्वयम्भू प्रणिपत्यतम् सह देव गणे देव स्वधाम समुपद्यत अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् विलोक्य भगवानाः यदुवृद्धान् समागतान् श्रीभगवानुवाच एतै वैं सुमहोत्पातां व्युत्तिष्ठन्ति सर्वतः शापश्च न कुलस्यासीब्राह्मणोऽभ्यो दुरत्ययः न वस्तव्यमिहास्माभिः जिजेविषुर्भिरायत्यकाः प्रभासं सुमहत्पुण्यं जास्यामोऽद्यैव च चिरम् यत्र स्मात्वा दक्षसापाद्गृहीतो यक्मणो दुरात् विमुक्तकिल्विषा वयं च तस्मिन्नाप्लुप्तं तर्पयित्वा पितृन्सुरान् भोजयित्वो शिजो विप्रान्नागुणवतान्धसान् तेषु दानानि पात्रेषु श्रद्धयोक्त्वा वहन्ति वै वृजनानि तरिष्यामो दानैनो भीरिवाणवम् एवं भगवता दृष्टा कुलनन्दन गन्तुं कृतधियस्त्यर्थं स्यन्दनान् समयो युजन् तन्निरीक्षोद्भवो राजन् श्रुत्वा भगवतोदितं दृष्ट्वा नृष्टानि नित्यं कृष्णमनुव्रतः विवेक्त उपसंगम्यं जगतामीश्वरेश्वरम् प्रणम्य शीर्षापादौ प्राञ्जले समभाषत उद्धौ उवाच देवदेवेश योगे स पुण्यश्रवणकीर्तनम् संहृत्यैतत्कुलं नूनं लोकं सन्त्यक्षते भवानं। विप्रशापं समर्थोऽपि प्रत्यहन्न यदीश्वरः नाहं तमाघ्रिकमलं क्षणार्थम् अपि केशव त्यक्तुं समुत्सहेनाथ स्वधामने मामपि तौ विक्रीडितं कृष्णनां परममङ्गलं कर्णपेयुषमास्वाद्य तजत्यन्तन्यस्पृहां जनः सय्यासनाटनस्थानस्नानक्रीडासनादिषु कथं त्वां प्रियमात्मानं वयं भक्ता लयोपभुक्तसृगन्धवालं वासोऽलङ्कारचर्चिताः उच्छिष्टभोजिनो दासाव मायां दयेमहीं वातरसुनाया ऋषयश्रमणा ऊर्ध्वमन्थिनः ब्रह्माख्यं धामते यान्ति शांता संन्यासिनो मलाः वयं तेह महायोगिन् भ्रमन्त कर्मवर्त्मसु त्वद्वार्तया करिष्याम तावके दुस्तरन्तमह स्मरन्तकृति यन्तस्ते कृतानि गदितानि च गत्युस्मिते क्षणक्षेरीयन्निलोकविडम्बनम् शिशु उवाच एवं विज्ञापितो राजन् भगवान् देवकीसुतः एकान्ति प्रियं भृत्यम् उद्भवम् सुमभाषत ते श्रीमद्भागवते महापुराणे पारहिंसां शैतायाम् एकादश स्कन्धे